अथ षट्चत्वारिंशत् सर्गः तया परुषमुक्तस्तु कुपितो राघवानुजः सभिकाङ्क्षम् वृषम् रामम् प्रतस्थेन चिरादिव तदा साद्यदशग्रीवः क्षिप्रमन्तरमास्थितः अभिचक्राम वैदेहीम् परिव्राजकरूपधृक् श्लक्ष्मकाशाय छत्री उपानहि वामे चाम् सेव सज्ज्याथ शुभे यष्टिकमण्डलू परिव्राजकरूपेण वैदेहीमन्व वर्तत तामा सदाति बलो भ्रातृभ्याम् रहिताम् वने रहिताम् सूर्यचन्द्राभ्याम् सन्ध्यामिव महत्तमः तामपश्यत्ततो बालाम् राजपुत्रीम् यशस्विनीम् रोहिणीम् शशिनाहीनाम् ग्रहवद्भृषदारुणः तमुग्रम् पापकर्माणम् जनस्थानगता द्रुमाः सन्दृश्य न प्रकम्पन्ते न च मारुतः शीघ्रस्रोताश्च तम् दृष्ट्वा वीक्षन्तम् रक्तलोचनम् स्तिमितम् गन्तुमारेभे भयात् गोदावरीनदी रामस्य त्वन्तरम् प्रेप्सुर्दश ग्रीवस्तदन्तरे उपतस्थे च वैदेहीम् भिक्षुरूपेण रावणः अभव्योऽभव्यरूपेण भर्ता रमनुशोचतीम् अभ्यवर्तत वैदेहीम् चित्रामिवशनैश्चरः सहसा भव्यरूपेण तृणैः कूप इवावृतः अतिष्ठत्प्रेक्ष्य वैदेहीम् रामपत्नीम् यशस्विनीम् तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीम् रामस्य रावणः शुभाम् रुचिरदन्तोष्ठीम् पूर्णचन्द्रनिभाननाम् आसीनाम् पर्नशालायाम् बाष्पशोकाभिपीडिताम् सताम् पद्मपलाशाक्षीम् पीतकौशेयवासिनीम् अभ्यगच्छत वैदेहीम् हृष्टचेतानिशाचरः दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् अब्रवीप्रश्रितम् वाक्यम् रहिते राक्षसाधिपः मुत्तमाम् त्रिलोकानाम् पद्महीरामिव श्रियम् विभ्राजमानाम् बपुषा रावणः प्रशशंसः रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनी कमलानाम् शुभाम् मालाम् पद्मिनीव च बिभ्रती ह्री शुभानने भूतिर्वा वरारोहे रतिर्वा स्वैरचारिणी समाः शिखरिणः स्निग्धाः विशाले विमले नेत्रे रक्तान्ते कृष्णतारके विशालम् जघनम् पीनमूरु करिकरोपमौ एतावुपचितौ वृत्तो संहतौ सम्प्रगल्भितौ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ मणिप्रवेकाभरणौ रुचिरौ ते, ते पयोधरौ चारुस्मिते चारुदति चारुनेत्रे विलासिनी मनोहरसि मे रामे नदी कूलमिवाम्भसा करान्तमितमध्यासि सुकेशे संहतस्तनी नैव देवी न गन्धर्वी न यक्षी न ना च किन्नरी नैवम् रूपामया नारी दृष्टपूर्वामहीतले रूपमग्र्यम् च लोकेषु सौकुमार्यम् वयश्च इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे सा प्रतिक्रामभद्रम् ते न वासो घोराणाम् कामरूपिणाम् प्रासादाग्राणि रम्याणि नगरोपवनानि च सम्पन्नानि सुगन्धीनि युक्तान्याचरितुम् भर्तारम् च वरम् कात्वं त्वद्युक्तमसि ते क्षणे का त्वम् भवति रुद्राणाम् मरुताम् वा शुचिस्मिते मसूनाम् वा नेह गच्छन्ति गन्धर्वा देवा न च किन्नराः राक्षसानामयम् वा सः कथम् तु त्वमिहागता इह शाखा मृगाः सिंहाद्वीपि वृक्षास्तरक्षवः कङ्काः कथम् तेभ्यो न बिभ्यसे मदान्वितानाम् घोराणाम् कुञ्जराणाम् तरस्विनाम् कथमेका महारण्येन बिभेषिवरानने कासिकस्य कुतश्च त्वम् किन्निमित्तम् च दण्डकान् एका कल्याणि घोरान् राक्षसेवितान् इति प्रशस्ता वैदेही रावणेन महात्मना द्विजातिवेषेण हितम् दृष्ट्वा रावणमागतम् सर्वैरतिथिसत्कारैः पूजयामास मैथिली उपानीयासनम् पूर्वम् पाद्येनाभिनिमन्त्र्य च अब्रवीत् सिद्धमित्येव तदातम् सौम्यदर्शनं द्विजातिवेषेण समीक्ष्य मैथिली समागतम् अशक्यमुद्वेष्टुमुपायदर्शनान्यमन्त्रयद्ब्राह्मणवत् तथा गतम् इयम् वृषी ब्राह्मण काममास्यतामिदम् चपाद्यम् प्रति गह्यतामिति इदम् च सिद्धम् वनजातमुत्तमम् त्वदर्थमव्यग्रमिहोपभुज्यताम् निमन्त्र्यमाणः प्रतिपूर्णभाषिणीम् नरेन्द्रपत्नीम् प्रसमीक्ष्य मैथिलीम् प्रसह्य तस्याहरणे दृढम् मनस् समर्पयामास वधाय रावणः ततः सुवेशम् मृगया गतम् पतिम् प्रतीक्षमाणा सह लक्ष्मणम् ददा निरीक्षमाणा हरितम् ददर्श तन् महद्वनम् रामलक्ष्मणौ इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षट्चत्वारिंशः सर्गः